गरुडपुराणम् आचारकाण्डम् अध्यायम् सवन्ती सुत उवाच दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् असुगृहीत्वा चरितुं प्रतस्थे निं शनीलेन नभत्स्थलेन जेत्रासुराणाम् समरेष्वजस्रं वीर्यावलेपोद्धतमानसेन लङ्काधिपेनार्थपथे समेत्य स्वर्भानुनेव प्रसभं निरुद्धः तत्सिंहलीचारुनिदम्बबिम्बविक्षोभिदागाधमहाप्रदायां पूकद्रमा बद्धतडद्वयां मुमोज सूर्यसरिदुत्तमायां तदप्रभृति सा गङ्गा तुल्यपुण्यफलोदया नाम्ना रावणगङ्गेदिप्रधिमानमुपागदा तदप्रभृत्येव च तस्याः सुवर्णनाराज सदैरिवान्तर्बहिप्रदीप्तैर्निशितानि भान्ति तस्यास्तडे पूज्यचारुराग भवन्ति तो येषु जद्मरागाः सौगन्धिक्रोद्धा कुरुविन्दजाश्च महागुणास्पाण्डिर बन्धूकगुञ्जासफलेन्द्रगोपजवाः समासृक् समवर्णशोभाः भ्राजिष्णवोदाडिमबीजवर्णास्तधा परे किं श्युगपुष्पभासः सिन्धुरपद्मात्पलकुङ्गुमानां लाक्षारसस्यापि समानवर्णः सान्द्रेऽपि रागे प्रभया स्वयैव भान्तिस्वलक्ष्या स्फुटमध्यशोभाः बानोश्च भासामनुवेदयोगामासाध्यरश्मिप्रकरेण दूरं पार्श्वानि सर्वाण्यनुरञ्जयन्ति गुणापपन्नास्फटिकप्रसूदाः कुसुम्भमीलव्यदिमिश्ररागप्रत्युग्ररक्राम्बुजतुल्यभासाः पदा परे रुष्कर कण्डकारिपुष्पत्विषो हिङ्गुलव द्विषोऽन्येर चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति अन्ये पुनः सन्दिधपुष्पितानां तुल्यत्वेषा कोकनदोत्तमानां प्रभावकाठिन्यगुरुत्वयो भैः प्रायः समानास्फटिगोद्भवानाम् आनीलरक्तत्पलचारुभासौगन्धिकोद्धा मणयो भवन्ति कामम् तु रागकुरुविन्दजेषु स नैव यादृक् स्फटिकोद्भवेषु भवन्ति प्रभाव वन्दो विनदै समस्तैः ये दुरावणगङ्गायाम् जायन्ते कुरुविन्दकाः पद्मरागतनम् रागम् बिभ्राणा स्फटिकार्चिषः वर्णानुयायिनस्तेषामान्ध्रदेश्ये तदा परे न जायते हि ये के जिन्मूल्यलेशमवाप्नुयुः तथैव स्पाटिकोद्धानां देशे तुम्बुरुसंज्ञके सद्धर्माणप्रजायन्ते स्वल्पमूल्या हि दे स्मृताः वर्णाधिक्यं गुरुत्वं च ददा समदाश्च अर्चिष्मत्तमहता चमणीनाम् गुणविग्रहाः ये कर्करचिद्रमलोपदिग्धा प्रभा नदे परुषा विवर्णाः न दे प्रशस्तमणयो भवन्ति समानदो समस्तैः दोषोपसृष्टं मणिमत्प्रबोधाद्विभर्ति यः कश्चन कञ्चिदेव तंशोपचिन्तामयमृत्युवित्तनाशादयो दोषगणा भजन्ते कामं चारुतराः पञ्चजातीना प्रतिरूपकाः विजात्तयप्रयत्नेन विद्वांस्तनुपलक्षयेद कलश पुरोद्भवसिंह लतुम्बुरुदेशोद्धमुक्तपाणियाः श्रीपूर्णकाशसदृशा विशादयः पद्मरागाणाम् तुषोपसर्गकलशाभिधानमादाम्रभावादपितुम्बुरुद्धम् कार्ष्ण्या तथा सिंहलदेशजातं मुक्ताभिधानं नभस स्वभावाद् श्रीपूर्णगं दीप्तिविना कृदत्वाद्विजाति लिङ्गाश्रय एव भेदः यस्तां मृगां पुष्यति पद्मरागो योगा तुषाणामिव पूर्णमध्यः स्नेहप्रदीभ प्रतिभादियश्च यो वा प्रकृष्टप्रजहादिदीप्तिम् आक्रान्तमूर्धा च तद्धाङ्गुलिभ्यां यःकालिकां पार्श्वगदां बिभर्ति सम्प्राप्य चोत्क्षिप्य यथानुवृत्तिं बिभर्ति यः सर्वगुणानदीव तुल्यप्रमाणस्य च जा, तुल्यजातेर्यो वा गुरुत्वेन तुल्यः प्राप्याभिरत्नाकरजास्वजातिं लक्ष्य गुरुत्वेन गुणेन विद्वान् अप्रणश्यति सन्देहे शाणेतु परिलेखयेद सुजातकसमुद्धेन लिखित्वापि परस्परं वज्रं वा गुरुविन्दं वा विमुच्यानेन केनचिद नाशक्यं लेखनं कर्तुं पद्मरागेन्द्रनीलयोः जातस्य सर्वेऽपि मणेर्न जादुविजादयः सन्धिसमानवर्णाः तथा विना कर्णार्थमेव मे निर्नधार्यो विगुणो जात्या न कौस्तुभेनापि सहावबद्धं विद्वान् विजातिं बिभ्रूयात् कदाचिद चाण्डालये कोऽपि यथा द्विजातीन् समेत्य भूरिनपि सन्ध्ययत्नाद अधोमणिन् भूरिगुणोपपन्नाञ्चक्रोधि विप्लावयितुं विजात्यः सपत्नमध्येऽपि कृताधिवासम् प्रमादवृत्तावपि वर्तमानं न पद्मरागस्य महागुणस्य भर्तार मापस्पृशति स काचिद दोषोपसर्गप्रभवश्च एते नोपद्रवास्त्रं गुणैः समुत्तेजित चारुरागं यः पद्मरागं प्रयदो बिभर्ति वज्रस्य यत् तण्डुलसङ्घ्ययोक्तं मूल्यं समुत्पादितगौरवस्य तत्पद्मरागस्य महागुणस्य तन्माशकल्पाकलितस्य मूल्यं वर्णदाप्त्यपपन्नं हि मणिरत्नं प्रशस्यते ताभ्यामीषदभिभ्रष्टं मणिमूल्यात् प्रहीयते यदि श्रीगारूढे महापुराणे आचारकाण्डे पद्मरागपरीक्षणम् नाम सप्ततितमोऽध्यायः ओम्